नारदपुराणम् पूर्वार्थम् अध्यायम् 14. धर्मराज उवाच श्रुतिस्मृत्युदिदम् धर्मं वर्णानामनुपूर्वशः प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः यो भुञ्जानो शुचिं वापि चाण्डालं पतितं स्पृशेद क्रोधादज्ञानदो वापिं तस्य वक्ष्यामि निष्कृतिं त्रिरात्रं वाधषड्रात्रं यथा सङ्ख्यं समाचरेद स्नानं त्रिश्रवणं विप्रपञ्चगव्येन शुध्यति भुञ्जानस्य दुविप्रस्य कदाच्चिस्त्रवदे गुदं, उच्छिष्टत्वे शुचित्वे च तस्य शुद्धिं वदामि पूर्वं कृत्वा द्विच शौचं पश्चादप उपस्पृशेत अहो भूत्वा पञ्चगव्येन शुभ्यदि निगिरन्यदि मेहेद भुक्त्वा वा मेफने कृते अहो रात्रौ शिदो भूत्वा जुहुयात् सर्पिषानलं यदा भोजनकाले स्याद् दशुचिर्ब्राह्मणक्वचिद भूमौ निधाय तं ग्रासं स्नात्वा पुयाद। भक्षयित्वा तु तदासमुपवालेन शुध्यति अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेद् अश्रतश्चेद्वमि स्याद्वै ह्यस्वस्तत्रिशतं जपेद् स्वस्तस्त्रीणि सहस्राणि गायत्र्या शोधनं परम् चाण्डालैष्व पर्चै स्पृष्टो विन्मूत्रे च कृते द्विजः त्रिरात्रं तु प्रकुर्वेद भुक्तो चिष्टषडाचरेद उदक्यां सूदिकां वापि संस्पृश्येद्यजो यदि त्रिरात्रेण विशुद्धि स्यादिति रजस्वलादु संस्पृष्टा श्वभिर्मादङ्गवायसैः निराहारा शुचिस्तिष्ठेत् काले स्नानेन शुध्यति रजस्वले यदा नार्या वन्योन्यं स्पृशद क्वचिद शुद्धेदे ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि उच्छिष्टेन च संस्पृष्टो यो नस्नानं समाचरेद ऋतौ दु गर्भं सङ्गित्वा स्नानं मैधुनि न स्मृदम् अनृदौ दु स्त्रियं पुरीषवद उभावप्यशुची स्यादां दम्पतीयाभ सङ्गतौ शयनादुद्धिदा दा नारी शुचि स्याद शुचिः पुमान् भर्तुः शरीरशुश्रूषां दौरात्म्यादः प्रकुर्वती नारी वर्षं त्याज्या धनं विना त्यजन्तोपतितान् बन्धून् दण्ड्यानुत्तमसाहसं पिताहिपतितकामं न तु मादा कदाचन आत्मानं कादयेद्यस्तु रज्ज्वादिभिरुपक्रमैः मृदे मेध्येन लेत्तव्यो जीवतो द्विशतं दमः दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमं प्रायच्चित्तं तदः कुर्युर्यथा विषप्रपतनध्वस्ताशस्त्रकादशदाश्चये न चैदे प्रवृत्त्यवसिदा सर्वलोकबहिष्कृताः चन्द्रायणेन शुद्ध्यन्ति तत्पकृच्छद्वयेन वा उभयावसिदपापश्यामच्च बलकाच्युदः चान्द्रायणाभ्यां शुद्ध्ये ददत्वा धेनुं तथा वृषम् स्वशृगालः विना स्पृष्टस्त्रात्वा शुचि सद्यो दिवा सन्ध्यासुरात्रिषु अज्ञानाद्वादु यो भुक्त्वा चाण्डालान्नं कथञ्चन गोमूत्र यावकाहारो मासार्धेन सार्धेन विशुध्यति गोब्राह्मणगृहं दग्ध्वा मृदं चोद्वन्दनादिना पाशं चित्वा तथा तस्य कृच्छ्रमेकं चरेद्विजः चाण्डाल पुल्पसानां च भुक्त्वा हत्वा च योषितं कृत्स्रार्धमाचरे ज्ञानादज्ञानादैन्दवद्वयं कोपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा अगम्यागमने विप्रोमदज्ञो वं मांस मध्यगोमांसभक्षणे तप्त कृत्रपरिक्षिप्तो मौर्वी होमेन शुद्ध्यदि महापादककर्तारश्चत्वारोधविशेषतः अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महदि क्रदौ रकस्य करणोऽप्येवं मासमभ्यस्य पूरुषः शुद्ध्ये दन्तर्जले जपन् रचकश्चर्मकारश्च नडो बुरुड एव च कैवर्तमेदभिल्लाश्व सत्पैदेह्यन्द्यजा स्मृताः भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यः प्रतिगृह्यते ज्ञानादैन्दव द्वयम् मातरं गुरुपत्नीं च दुःखीदृभगिनी स्नुषाः सङ्गम्य प्रविशेदग्निम् नान्याः शुद्धिर्विधीयते राज्ञीम् प्रव्रजिताम् धात्रीं तथा वर्णोत्तमामभि गत्वा कृच्छ्रद्वयं कुर्यात् सगोत्रामभिगम्य च अमूषु पितृगोत्रासु मातृगोत्रगतासु च परदारेषु सर्वेषु कृत्रार्धं दवनं चरेद व्यस्याभिगमने पापं व्यपोहं दिद्विजास्तथा पीत्वा साकृत्सुतपं च पञ्चरात्रं कुशोदकं गुरुतल्पगदो कुर्याद्रब्राह्मणो विधिवधृदम् गोङ्खस्य केचिदिच्छन्ति केजिच्चैव वकीर्णिनः दण्डादूर्ध्वम् प्रहारेण यस्तु विनिपादयेद विनिपादयेद्विगुणम् गोव्रतम् तस्य प्रायश्चित्तम् विशोधयेत् अङ्गुष्टमात्रस्थूलस्तु बाहुमात्रप्रमाणकः सार्द्रकस्सपालाश्च गोदण्डपरिकीर्तितः गवां निपातने चैव गर्भोऽपि सम्भवेद्यदि गोङ्खस्य निष्कृतिः बन्धने रोदने चैव पोषणे वा गवां सम्पद्यते चेन्मरणं निमित्तेनैव लिप्यते मूर्छिधपदितो वापि दण्डेनाभिहतस्ततः उद्धाय षट्पदं गच्छेत् सप्त पञ्चदशापि वा ग्रासं वा यदि गृह्णीयातोऽयं वापि पिबेद्यदि सर्वव्याधिप्रणाष्ठानां प्रायश्चित्तं न विद्यते कष्टलोष्टस्मभिर्गावशस्त्रैर्वा निहदा यदि प्रायश्चित्तं स्मृतं तत्र शस्त्रे शस्त्रे निगध्यते काष्ठे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके तप्त कृछ्रम तो पाषाणे शस्त्रे चाप्यधि कृथ्रकशद स्नेह द्राह्मणु जीयम विपत्ति सियाच्छि तदा नी तैलभेशजपानने जेश चैव निशल्यक प्राचित्त न वत्सानां कण्ठबन्धेन क्रिययाभेषजेन सायं सङ्कोपनार्थं च त्वोषो दोषबन्धयोः पादे चैवस्य रोमाणिद्विपादेश्मश्रु केवलं त्रिपादेशिखावर्तं मूले सर्वं समाचरेद सर्वान् केशान् समुद्धृत्य चेदयेदङ्गुलद्वयम् एवमेवधुनारीणां मुण्डनं शिरस स्मृतम् न स्त्रिया वपनं कार्यं न च वीरासनम् स्मृतम् न च गोष्ठे निवासोऽस्ति न गच्छन्तीमनुव्रजेद राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः अकृत्वा वपनम् तेषाम् प्रायच्चित्तम् विनिर्दिशेद केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् द्विगुणे गदुव्रजीर्णे द्विगुणा व्रतदक्षिणा पापं न क्षीयदे खन्दुर्दाता च नरकं व्रजेद् प्रायश्चित्तं वदन्ति तान् धर्मविघ्नकर् तृंश्च राजा दण्डेन पीडयेद् न चैदान् पीडयेद्राजा कथञ्चित् काममोहितः तत्पापं शतधा भूत्वा तमेव परिसर्पदि प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनं विंशदीर्घावृषं चैकं दद्यात् तेषां च दक्षिणां कृमेभ्ये तृण शम्भुदैर्मक्षिकादिनिपातितैः कृस्रार्धं स प्रभुर्वीदशक्त्या दद्याच्च दक्षिणां प्रायश्चित्तं च कृत्वा वै द्विजोत्तमान् सुवर्णमानिकं दद्यात् तदशुद्धिर्विधीयते चाण्डालश्व भज स्पृष्ठे स्नानं विधीयते न वसेत्तत्र रात्रौ तु सद्य स्नानेन शुध्यति वसे दध यधा रात्रावज्ञानादविचक्षणः तदा तस्य तु परिवर्तदे शतधा परिवर्तते उद्गच्छन्ति नक्षत्राण्युपरिष्टाच्च ये ग्रहाः संस्पृष्टे रश्मिभिस्तेशामुदकस्नानमाचरेद्याश्चान्दर्जलवल्मीकमूषिको शरवर्त्मसु श्मशाने शौचेषे च न ग्राह्याः सप्तमृत्तिकाः युष्टापूर्तं तु कर्तव्यं ब्राह्मणेन प्रयत्नदः इष्टेन लभते स्वर्गं मोक्षं पूर्तेन चाम्भूयाद् वित्तक्षेपो भवेदिष्टं तडागं पूर्तमुच्यते आरामश्च विशेषेण देवद्रोण्यस्तथैव च वापी कूपतडागानि देवतायतनानि च पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुदे शुक्लाय आहरेन्मूत्रं कृष्णाया घोष्यकृथा ताम्रायाश्च पयोग्राह्यं श्वतायाश्च दधि स्मृतं कपिलाया कृतं ग्राह्यं महापादकनाशनं कुश्यास्तीर्थनदी तौ है सर्वद्रव्यं पृथक् पृथक् आहृत्य प्रणवेनैव उद्घाप्य प्रणवेन प्रणवेन समालोढ्यप्रणवेनैव सम्पिबेद पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे पिबेत् पुष्करपर्णे वा मृण्मये वा कुशोदकं सूतके दुसमुत्पन्ने द्विदिये समुपस्थिते द्वितीयेनास्ति दोषस्तु प्रथमेनैव शुध्यति जातेन शुध्यते जातं मृदेन मृतकं तद्धा गर्भसंस्रवणे मासे त्रीण्यहानि विनिर्दिशेद रात्रिभिर्मासतुल्याभिर्गर्भस्रावेव शुध्यति रजस्युपरदे साध्वीस्नानेन स्त्रीरजस्वला स्वगोत्राद्भृश्य देनारीविवाहात् सप्तमे पदे स्वामी गोत्रेण कर्तव्यास्तस्या पिण्डोदक्रियाः उद्देश्यं पिण्डदाने स्यात् पिण्डे पिण्डे द्विना मदः षण्णां देयाश्रय पिण्ड एवं दादानमुह्यति स्वेन भर्त्रा सहस्राब्धं माता भुक्तास् सुदैवतं पितामह्यपि स्वेनैव स्वेनैव प्रविधामही वर्षे दुगुर्विधमादापित्रोऽस्तु सत्कृतिम् अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेद नित्यं नैमित्तिकं काम्यं वृद्धि श्राद्धमदा परं पार्वणं चेति श्राद्धं पञ्चविधं बुधैः ग्रहोपरागे सङ्क्रान्तौ पर्वोत्सवमलालये निर्वपेद्री नरस्पृण्डानेकमेव मृदेहनि अनूटनपृथक्कन्यापिण्डे गोत्रे जसूतके पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः येन येन दुवर्णेन या कन्या परिणीयते तत्समं सूतकं याधि तदा पिण्डोदकेऽपि च विवाहे चैव संवृत्ते चतुर्थे खनिरात्रिषु एकत्वं सा व्रजेभर्तुपिण्डे गोत्रे जसूतके सूतके प्रथमेऽ्नि द्वितीये वा तृतीये वा चतुर्थके अस्ति तं कार्यं बन्धुभिर्हितबुद्धिभिः चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा अस्ति संशयनं प्रोक्तं वर्णानामनुभूवशः एकादशाहे प्रयदश्य यस्य चोत्सृज्यते वृषः मुच्यते प्रयदलोकात् स स्वर्गलोके महीयते नाभिमात्रे जले स्थित्वा हृदये न तु चिन्तयेद आगच्छन्तु मेऽपिदरो गृह्णन् त्वेदाञ्जाञ्जलीन् हस्तौ पूरचित्वा जलेन च गोशृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेद आकाशे च क्षिपेद्वारि वारिस्थो दक्षिणामुखः पितॄणां स्थानमाकाशं दक्षिणादिक्तथैव च आपोदेवगणः प्रोक्ता आपपितृगणास्तथा तस्मादस्य जलं देयं पितॄणां हिदमिच्छता दिवा सूर्यांशु संप्तं रात्रौ नक्षत्रमारुतैः मध्ययो राप्यो भाभ्यां च पवित्रं सर्वदा जलं स्वभावयुक्तमव्यक्तममेभ्येन सदाशुचिः भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलं देवतानां पितॄणां च जलं दद्या संस्कृतप्रमीतानां स्थले दद्या द्विचक्षणः श्राद्धे हवनकाले च दद्यादेकेन पाणिना उभाभ्यां तर्पणे दद्यादेशधर्मो व्यवस्थितः इति श्रीबृहन्नारदपुराणे पूर्वे भागे प्रथमपादे धर्मशान्ति निर्देशो नाम चतुर्दशोऽध्यायः ओम्